अतः श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे दृढधन्वोपाख्याने सुदेवप्रतिबोधो नाम षोडशोऽध्यायः गरुड उवाच सप्तजन्मसुते पुत्र सुखं नास्तीति यद्वचः हरिणोक्तं द्विजश्रेष्ठ तत्तथैव तवाधुना तथापि स्वामिनाज्ञप्तः कृपया दद्मि ते सुतं मदंशसम्भवः पुत्रो भविता ते तपोधनम् येन त्वमाशिषः सत्या लप्स्यसे गौतमे युतः परं दुःखं युवयोर्भविता ध्रुवं धन्योऽषि द्विजशार्दूल हरिभक्तिर्हरे प्रिया जलबुद्बुदवत् पुंसां शरीरं क्षणभङ्गुरं तदा साध्य हरे पादं धन्यश्चिन्तयते हृदि हरेरन्यो न संसारात् तारयेद बहुदुस्तरात् दुस्तरात् हरे कृपालेशान् मया दत्तः सुतस्तव मनसि श्रीहरिं ध्यात्वा विचरस्व यथा सुखम् उदासीनतया स्थित्वाजं सुखम् दम्पत्योः पश्यतोः सद्यो दत्त्वा वरमनुत्तमं खगद्वारा हरिः शीघ्रं ययौ निजनिकेतनं सुदेवोऽपि सपत्नीको वरं लब्ध्वा आसाद्य स्वगृहं भेजे गार्हस्थ्यसुखमुत्तमम् कियत्कालक्रमेणास्य दोहदः समपद्यत दशमे मासिभूवः प्रसूतिकाले सम्प्राप्ते सासूत्सुतमुत्तमं सुदेवस्त्वात्मजे जाति आहुय कर्म सुस्नातो नाम चास्याकरो धीमान् ब्राह्मणैः स्वजनैर्वृतः अयं सुतः सुपर्णेन दत्तः प्रेम्णा कृपालुना शारदेन्दुरिव प्रोद्य तेजस्वी शुकसन्निभ शुकदेवेति नामायं पुत्रोऽस्तु मम वल्लभः अवर्धतसुतः शीघ्रं शुक्लपक्ष इवोडुपः पितुर्मनोरथैः साकं मातृमानसनन्दनः उपनीयसुतं तातः सावित्रीं दत्तवान् मुदा संस्कारं वैदिकं प्राप्य ब्रह्मचर्यव्रते स्थितः तत्तेजसान्वितो रेजे साक्षात् सूर्यैवापरः वेदाध्ययनमारेभियामास स्वगुरुं भक्तो वत्सलः स्वगुरुं गुरुवत्सलः सकृन्निगदमात्रेण गुरु विद्यां सर्वामुपेयिवान् एकदा देवलोभ्यागात् कोटिसूर्यसमप्रभोक्यसुदेवोऽसौ न नाम दण्डवन्मुदा पूजयामास विधिवत् अर्घ्यपाद्यादिभिर्मुनिम् आसनं कल्पयामास देवलाय महात्मनि तत्रोपविष्टो भगवान देवलो देवदर्शनः चरणे पतितं दृष्ट्वा कुमारं देवलो ब्रवीत् देवल उवाच भो भो सुदेवधन्योऽसि तुष्टस्ते भगवान् हरिः यतस्त्वं प्राप्तवान् पुत्रं दुर्लभं सुन्दरं वरं एतादृश सुतः क्वापि विनीतो बुद्धिमान् वाग्मी वेदाध्ययनशीलवान् एहि पुत्रकिमे किमेतत् ते कौतुकम् सच्छत्रं चामरयुगं कमलं यवसंयुतम् आजानुलम्बिनौ हस्तौ हस्ति हस्त चक्षुषी मधुपिञ्जरी वपुर्वर्तुलकं मध्यं वलित्रयविभूषितम् एवमुक्त्वा सुतं दृष्ट्वा पुनराहोत्सुकं द्विजम् अहो सुदेव तवायं गुणसागरः गूढशत्रुः कम्बुकण्ठः स्निग्धकुञ्चितमूर्धजः तुङ्गवक्षाः पृथुग्रीवः समकर्णो वृषांसकः सर्वलक्षणसम्पूर्णः पुत्रो भाग्यनिधिर्महान् एक एव महान् दोषो येन सर्वं वृथा कृतम् इत्युक्त्वा मौलिमा विनिश्वस्याब्रवीन्मुनिः पूर्वमायुः परीक्षेत पश्चाल्लक्षणमादिशेत् निरायुषः कुमारस्य लक्षणैः किं प्रयोजनम् सुदेवतनयोयं ते जले मृत्युमेष्यति तस्मात् त्वं शोकं मा कुरु अवश्यं भाविनो भाव भवन्त्येव न संशयः तत्र प्रतिविधिर्नास्ति इत्युदीर्यगतो ब्रह्मलोकं देवलको मुनिः सुदेवः सह गौतम्य पपातधरणीतली विललापचिरं भूमौ देवलोक्तं वचस्मरन् अथ गौतमी पुत्रम् स्वाङ्कमारोप्य धैर्यतः चुम्बवदनं पश्चात्पतिमुवाच सा द्विजराजन कर्तव्य भीतिर्भाव्येषु वस्तुषु नाभाव्यं भविता कुत्र भाव्यमेव भविष्यति किन्नुनो नु नो दुःखमापन्ना नलरामयुधिष्ठिरा बन्धनं बलिराजापि प्तवान् यादवक्षयं हिरण्याक्षोबधं घोरं वृत्रोऽपि निधनं गतः कार्तवीर्यः शिरश्छेदं रावणोऽपि तथाप्तवान् विरहं रघुनाथोऽपि जानक्या प्राप्तवान् मुनिः परीक्षिदपि राजर्षिर्ब्राह्मणान् मृत्युमाप्तवान् एवं ये भाविनो भाव भवन्त्येव मुनीश्वरम् अतः उत्तिष्ठ हे नाथ हरिं भज सनातनं शरण्यं सर्वजीवानां निर्वाणपददायकम् इति श्रीबृहन्नारदीयपुराणि पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे दृढधन्वोपाख्याने सुदेवप्रतिबोधो नाम षोडशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु